व्याघ्रौ वाच ब्रवीति यदि काले ह्येवम् काले ह्यस्मिन् प्रबोधितः हनिष्येहं हनिष्येऽहम् वनेचरान् खादिष्ये तत्रमांसानि मांसानि इत्युक्त्वा प्रस्थितो वनम् एतस्मिन्नेव काले तु मूषिकोऽप्याजगामः तमागतमभिप्रेत्य शृगालोऽप्यब्रवीत्वचः चम्बुकौ वाच शृणु मूषिक ते न कुलो यदिहाब्रवीत् मृगमांसम् न खादेयम् गरमेतन्न रोचते मूषिकम् भक्षयिष्यामि तद्भवाननुमन्यताम् तच्छ्रुत्वा मूशिको वाक्यं सन्त्रस्तः प्रगतो बिलम् ततः स्नात्वा स वै तत्र आजगाम वृको नृप तमागतमिदम् वाक्यमब्रवीत् जम्बुकस्तदा मृगराजो हि सङ्क्रुद्धो न साधु भविष्यति सकलत्र स्विहायाति कुरुष्व यदनन्तरम् एवम् जम्बुकेन तदा वृकः ततोऽवलुम्पनम् कृत्वा प्रयातः पिशिताशनः एतस्मिन्नेव काले तु नकुलोऽप्याजगामः तमुवाच महाराज नकुलं जम्बुको वने स्वबाहुबलमाश्रित्य निर्जितास्तेऽन्यतो गताः मम दत्त्वा नियुद्धम् त्वम् भुक्ष्व माम् संयथेप्सितम् नकुलौ मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः निर्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान् न त्वयाप्युत्सहे योद्धुमित्युक्त्वा सोऽप्युपागमत् एवं तेजु प्रया तु जो हृष्ट खाद तक मच्चयाचर निख मेधेत भूपति भये नेदी शूरमंजलिर्माण लुब्धम प्रदेन समूनम तथौजसाव कथित राजजन शृणुचाप्यपरम तथा पुत्र सखा वा भ्राता विता वा, वा यदि वुस्थनु वर्तनो हंतव्यातिता शपथेनाप्यरिम्हन्यादर्थदानेन वा पुनः विषेणमाययावापि नोपेक्षेत कथञ्चन उभौ चेत् संशयोपेतौ श्रद्धावांस्तत्र वर्धते गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः उत्पथ प्रतिपन्नस्य न्याय्यम् प्रहृत्य च कृपायीत शोचेत च रुदेत च प्रतिविश्रब्दघाती स्यात् तीक्ष्णदंष्ट्रो निमग्नकः अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः अशङ्क्याद्भयमुत्पन्नमपि मूलम् निकृन्तति न विश्वसेदविश्वस्ते विश्वस्तेनाति विश्वसेत् विश्वासाद्भयमुत्पन्नम् मूलान्यपि निकृन्तति चारस्सु विहितः कार्यम् आत्मनश्च परस्य वा पाषण्डाम्स्तापसादींश्च परराष्ट्रेषु योजयेत् उद्यानेषु विहारेषु देवतायतनेषु च पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्यथ चत्वारेषु च चा कूपेषु पर्वतेषु वनेषु च समवायेषु सर्वेषु सरित्सु च विचारयेत् वाचा भृशम् विनीतः स्याद्धृदयेन तथाक्षुरः स्मितपूर्वाभिभाषी स्यात् सृष्टो रौद्राय कर्मणे अञ्जलिः शपथः सान्त्वम् शिरसापादवन्दनम् भूतिमिच्छता सुपुष्पितः स्यादफलः फलवान् आमस्यात्पक्वसङ्काशो न च जीर्येत कर्हिचित्